गर्गसंहित खण्डं नयन् विज्ञानखण्डम् अध्यायं वन् बहुलाश्व उवाच हरे श्रीकृष्णचन्द्रस्य भक्तिमार्गस्तु यः परः तं मुने मह्यं येन भक्तो भवाम्यहं नारद उवाच भक्तिमार्गं वदिष्यामि वेदव्यासमुखाच्छ्रुदं येन प्रसन्नो भवति भगवान् भक्तवत्सलः शङ्खं विजित्य कृष्णेन भुजदण्डबलोद्धृतं द्वारावत्यां सभा दिव्या सुधर्मा नाम मैथिला यत्र मण्डपदेशस्य वैदुर्यस्तम्भपङ्क्तयः राजन्दे कोडिशोराजन्विश्वकर्मविनिर्मिताः पद्मराकखचिद्भूमौ श्रेण्यो वै विद्रुमाचिदाः यत्र चित्रविदानानि भ्राजन्ते मौक्तिकालिभिः सिंहासनानि कुड्यानि कालमेखतडिद्युद्भिः जाम्बूनदसुवर्णानां स्फुरत्कुण्डलकोटिभिः बालार्करत्नकेयूर काञ्जीकङ्कणनूपुरैः शतचन्द्रप्रदि काश्यास्फुरत्कुण्डलमण्डिताः गायन्ति यत्र गन्धर्व्यो विद्याधर्यो मुदान्विताः नृत्यन्तकलवादित्रैः स्पर्धावद्यः परस्परम् यस्याश्च दुर्षु कोणेषु देववृक्षैर्मनोरमैः नन्दनम् सर्वतो भद्रम् द्रव्यम् चैत्ररथम् वनम् लक्षाणि यत्र राजेन्द्र सरांसि विमलानि च सहस्रदलपद्मानि भ्रमरै सङ्गुलानि च दशयोजनविस्तीर्णा पञ्जयो जनमूर्ध्वगा एतादृशी सुधर्मास्ते पा पदाका द्वैजमण्डिता यत्र प्रविष्ट पुरुष आत्मानम् मन्यते परम् यत्सिंहास्तनमासाद्यचक्रोकमिति दे, तस्य देहे प्रवर्तते दे, यावत्तिष्ठे दूर्मिषट्कम् न चैव हि तस्च जनास्तत्र प्रविशन्ति नरोत्तमा स्वप्रभावेण सहसा तावती सा प्रकाशते षट्पञ्चाशत्कोटिसङ्ख्या यादव यत्र सानुगाह तच्च त्वरस्यैकदेशे दृश्यन्ते तेजमैथिल परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् यत्रास्ते तस्य राजेन्द्रवर्णनम् करोति हि अथ तस्याम् सुधर्मायाम् यतुकोडिसमावृतः उग्रसेनो गीयमानसूदमागधवन्दिभिः आकाशादागतसाक्षाद्वेदव्यासो महामुनिः पराशर्यो घनश्यामष्टडित् पिङ्गजडाधरः तं दृष्ट्वा सहस्रोद्धाय यदुराजकृताञ्जलिः नत्वा सनं सोपचारं दत्त्वा तत्सम्मुखो भवत् उग्रसेन उवाच अध्यमे सबलं जन्म सबलं अद्यमे मे सफलो धर्मो ब्रह्मं स्तोयागदे गदे सदि सदानन्देषु कुशलम् नेष्टं भवत्सुखी वदमे मे कुशलम् देव येन स्वस्थो यत्र यत्र व्रजन्तस्ते त्वा साधव प्रभो तत्र तत्र भवेत्सिद्धिर्लौकिकी पारलौकिकी यत्र क्षणं स्थिता सं तस्तत्र साक्षात् स्वयं हरिः किमुलोकगुणा ब्रह्मान् पाराश्चर्यमहामुने मया दुपुण्यं यज्ञो वा किं कृतं पूर्वजन्मनि येन वैद्वारकाराज्यं प्राप्तोऽसं मुनिपुङ्गव भवादृशा विप्रमुख्या गृहमायान्ति नित्यशः तस्मात् परम् हि सुकृतम् जाने स्वस्य न संशयः व्यास उवाच धन्योऽसि राजशार्दूल धन्यादेविमलामदिः परङ्कृतम् त्वया राजन् सुकृतम् पूर्वजन्मनि पुरा त्वम् मरुतो कृत्वा यज्ञम् जगज्जितम् निष्कारणो भूर्मनः सा प्रसन्नो भूधरिस्तदा अनिमित्तेन भावेन प्राप्तम् चेदम् परम् तव परिपूर्णसमः साक्षात् भगवान् हरिः असङ्ग्यब्रह्माण्डपदेर्गोलोके श परात्परः सोऽयम् भक्त्या वही भूतस्वशस्तव अभो भोजपदे मुक्तिं ददाति भजतां हरिः न कर्हि चिद्भक्तियोगं दुर्लभं विद्धितं नृप इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीनारदबहुलाश्वसंवादे व्यासागमनं नाम प्रथमोऽध्यायः ओम् अध्यायम् टु उग्रसेन उवाच धन्योऽस्म्यनुगृहीतोऽस्मि तव वर्णननिर्वृतः हृदुद्भूतम् च सन्देहम् दूरीकर्तुम् भवान् क्षमः <coughs> कर्मणाम् सनिमित्तानाम् कागदि किञ्च लक्षणम् कदिभ्येदाहितेषाम् वै वद यथा तथा व्यास उवाच गुणैः सर्वाणि कर्माणि सनिमित्तानि सन्तिः तान्येव चानिमित्तानि राजन्त्यकृतफलानि सनिमित्तं च यत्कर्म बन्धनं विद्धि यादव अनिमित्तं च यत्कर्म मोक्षदम् परमम् शुभम् सत्वम् रजस्तम इति गुणात् प्रकृतिसम्भवाः तैर्व्याप्तम् हि जगत्सर्वम् सर्वार्थमिव विष्णुना सत्त्वे प्रलीना स्वर्यादि नरलोकम् रजोलयाः तमोलयास्तु नरकम् यान्ति कृष्णम् हि निर्गुणाः पञ्जाग्नि सप्ता अथ पञ राजन्व्रजवासिनः लोकं सप्तऋषीणां तु ते यान्तिगतकल्मषाः सन्न्यासाश्रमकर्तारस्त्रिदण्डधृतपाणयः या जितेन्द्रियमनोधर्मा सत्यलोगं व्रजन्तिः अष्टाङ्गयोगयोगीन्द्रा निर्मला ऊर्ध्वरेतसः जनलोकम् महर्लोकम् यान्धिते नात्रसंशयः संशयः यज्ञकर्ता शक्रलोके वस देशाश्वदी समः दानी चान्द्रमसम् लोकम् व्रदी सौरम् व्रजत्यलम् तीर्थयायी चाग्निलोकम् सत्यसन्धश्च वारुणम् वैष्णवाश्चापि वैकुण्ठम् शैव शैवम् व्रजन्ति पितृन् यजन्ति ये नित्यम् सुखैश्वर्यप्रजेप्सवः दक्षिणेन पद्धार्यम्णा पितृलोकम् व्रजन्ति ते स्वर्लोकम् वै तथा स्मार्था पञ्चपूजनसंयुताः प्रजापदीयजो यान्ति दक्षादींश्च प्रजापदीन् भूतानि यान्ति भूदेज्या यक्षान्यक्षयजस्तथा ये यस्य भक्तास्तल्लोकान्यान्ति राजन्न संशयः तथा पापरदा राजन् दुःसङ्गवशवर्धिनः यमलोकं च देयान्ति निरयैर् दारुणैर्वृदम् पुनरावर्धिनो लोका सर्वे चा ब्रह्मलोकदः पुनरावर्धिनो लोकान् विद्धिराजन्महा मदे कर्मणां सनिमित्तानां मार्गमेष गदागदः तावत् प्रमोददे स्वर्गे यावत्पुण्यं समाप्यते क्षीणपुण्य पदत्यर्वागनिच्चन् कालचालितः यादवेन्द्रमहाबाहो तस्मात् कर्मफलं त्यजेद् भक्ततो निष्कारणो भूत्वा ज्ञानवैराग्यसंयुधः प्रेमलक्षणया वाचा हरिभक्तजनप्रियः भजे श्रीकृष्ण पादाब्जमभयं हंससेवितम् यो मृत्यु सर्वलोकानां बलात् संहारकारकः सयत्र यत्र भगवद्धाम्नि मृत्युमाप्नुयाद उग्रसेन उवाच सर्वे लोका हि भगवन् पुनरावर्तिन स्मृताः तेभ्यो जातं च वैराग्यं मनसो मेन श्रीकृष्णधामपरमं यतो नावर्ततेकदः तल्लोकं वद मे ब्रह्मन् क्व चास्ते सर्वतः परम् श्रीव्यास उवाच ब्रह्माण्डेभ्यो बहिर्धाम श्रीकृष्णस्य महात्मनः यद्गदा न निवर्धन्ते तद्गोलोकं विधुपरं ब्रह्माण्डोऽयं जीवसङ्खपञ्चाशत् कोडियो जनः विस्तृतपरदो द्वाभ्यां शतकोटिविलङ्घितः यदन्तरगतो राजन्लक्ष्यते परमाणुवद तदन्तरगतश्चान्ये कोडिस्यो ह्यण्डराशयः न तद्भासयते सूर्यो न शशाङ्को न पावकः कामक्रोधश्च लोभश्च नमोहो मोहो न यत्र शोको न जरा न ना मृत्यो नार्तिरेव च न ना प्रधानम् न कालश्च विशम्ते च गुणाकुतः शब्दब्रह्माप्यनिर्वाच्यम् तद्वर्णयितुमक्षमः श्रीकृष्ण तेजसम्भूतस्तत्र सन्ति जपार्षदाः अकिञ्चनाश्चये दान्ता शान्ता वै समचेतसः श्रीकृष्णचन्द्रपादाब्जा मकरन्दरसालयः प्रेमलक्षणया भक्त्या सदा निष्कारणपराः लोकानुल्लङ्घ्य तद्धाम यान्दि रजन्नसंशयः इति श्रीगर्गसंहितायाम् विज्ञानखण्डे श्रीव्यासोग्रसेन संवादे लोकगतिनिरूपणम् नाम द्वितीयोऽध्यायः ओम् अध्यायम् त्रि उग्रसेन उवाच श्रुतम् तव मुखद्ब्रह्मन् गुणकर्मगतिर्मया पुनरावर्तिनो लोकास्तथा सन्धिविनश्च विनिश्चाः निष्कारणाधरे साक्षात् सेवनाधाम उत्तमम् लभदे दुर्लभम् दिव्यम् भक्तानां तच्छ्रुदम् मया भक्तियोगकधिविधो भक्तियोगकधिविधो वद वरा येन भवति भगवान् भक्तवत्सलः श्रीव्यास उवाच द्वारावतीश धन्योऽसि श्रीकृष्णेष्ठो हरिप्रियः पृच्छसे भक्तियोगं त्वं धन्या ते विमलामतिः यं श्रुत्वा निर्मलो भूयात् विश्वकात्यपिपादकी तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव भक्तियोगो द्विधाराजन् सगुणश्चैव निर्गुणः सगुणः स्यात् बहुविधो निर्गुणश्चैकलक्षणः सगुणः स्यात् बहुविधो गुणमार्गेण देहिनां तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणुतान् पृथक् किं सा दम्भं च मात्सर्यं चाभिसन्धाय भिन्नधृत कुर्याद्भावं हरौ क्रोधी तामसपरिकीर्तितः यश ऐश्वर्य विषयानभिसन्धाय यत्मदः अर्चयद्यो हरिं राजन् राजसः परिकीर्तितः उद्दिश्य कर्म मोक्षार्थं भजते विष्णुं सभक्तसात्विकस्मृतः जिज्ञासुरार्थो ज्ञानी च महामदे चतुर्विधा जना विष्णुं भजन्ते कृतमङ्गलाः एवं बहुविधेनापि भक्तियोगेन माधवं भजन्ति सनिमितास्ते जना सुकृदिनः परे लक्षणभक्तियोगस्य निर्गुणस्य तथा शृणु तद्गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे परिपूर्णदमे साक्षात् सर्वकारणकारणे मनोगतिरविच्छिन्ना खण्डिता हैतुकीचया यदाब्धा वं भसा गङ्गा सा भक्तिर्निर्गुणा स्मृदा निर्गुणानां च भक्तानां लक्षणं शृणुमानदा सार्वभौमम् पारमेष्ट्यम् चक्रधिष्ण्यम् तथैव च रसाधिपत्यम् योगर्दिम् न वाञ्छन्ति हरेऽर्जनाः हरिणादीयमानम् वा सालोक्यम् यादवेश्वर न गृह्णन्ति कदाचित्ते सत्सङ्घानन्द निर्वृताः समीप्यम् ते न वाञ्छन्ति भगवद्विरहातुराः संनिकृष्टेन तत्प्रेम यथा दूरदरे भवेद सारूप्यं दीयमानं वा समानत्वाभिमानिनः नैरपेक्ष्यान्न वाञ्छन्ति भक्तास्तत्सेवनोत्सुकाः एकत्वं चापि कैवल्यं न वाञ्छन्ति कदाचन एवं चेत्तर्हि दासत्वं क्व स्वामित्वम् परस्य च निरपेक्षाश्च ये शान्ता निर्वैराः समदर्शिनः आकैवल्याल्लोकपदग्रहणं कारणं विदुः नैरपेक्ष्यं महानन्दं निरपेक्षा जना हरेः जानन्दिः यथा नासा पुष्पामोदं न चक्षुषी सकामाश्च तदनन्दम् जानन्तिः कथञ्जन रसकर्ता तथा हस्तो रसस्वादं न वेतिः तस्माद्राजन् भक्तियोगम् विद्धि चात्यन्तिकम् पदम् भक्तानां निरपेक्षाणां पद्धतिम् कथयामि ते स्मरणं कीर्तनं विष्णोश्रवणम् पादसेवनं अर्चनं वन्दनं दास्यम् सख्यमात्मनिवेदनम् कुर्वन्ति स राजन् भक्तिम् ये प्रेमलक्षणाम् ते भक्ता दुर्लभा भगवद्भावभावनाः कुर्वन्तो महदोपेक्षाम् दयाम् हीनेषु सर्वतः समानेषु तथा मैत्रीम् सर्वभूतदयापराः कृष्णपादाब्ज मधुभाकृष्णदर्शनलालसाः कृष्णम् स्मरन्ति प्राणेशम् यथा प्रोषितभर्तृकाः श्रीकृष्णस्मरणाद्येषाम् रोमहर्षप्रजायदे आनन्दाश्रुकलाश्चैव वैवर्ण्यम् दुःख्वचिद् भवेत् श्रीकृष्णगोविन्दहरे ब्रुवन्दस्वक्ष्मया गिरा अहर्निशम् हरौ लग्नास्ते हि भागवतोत्तमाः इति श्रीगर्गसंहितायाम् विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे निर्गुणभक्तियोगवर्णनम् नाम हृदयोऽध्यायः श्रीव्यास उवाच खे वायौ सलिले वह्नौ मह्यां चोदिर्गणेषु च कृष्णदेवं पश्यन्दो हर्षिताश्च पुनः पुनः राधिकाना कंदर्पमोहनः राधिकानाथकोटिकन्दर्पमोहनः तन्नेत्रगोचरो यादिभुवन् श्रीनन्दनन्दनः सदानन्दं च दृष्ट्वा प्रहसन्ति प्रहर्षिताः क्वचिद् वदन्ति धावन्ति नन्दन्ति च क्वचित्तद्धा क्वचित् गायन्ति नृत्यन्ति क्वचित् तूष्णीम् भवन्ति तेषाम् दर्शनमात्रेण नरो यादिकृदार्थताम् न कालो न यमस्तेषाम् दण्डम् दातुम् गदा कौमोदगी वामे दक्षिणे च सुदुर्शनम् अग्रे शार्ङ्गधनु पश्चात्पाञ्जन्योघनस्वनः नन्दकश्च महागड्गशन्द्रे श्रवशिदाः ेतान्यायुधमुख्यानि तांश्च रक्षन्त्यहर्निशम् तदोपरि महापद्मम् छायाम् कर्तुम् पुनः पुनः गरुडपक्षवादेन श्रमहर्ता सदातपि यत्र यत्र गता सन्तस्तत्र तत्र स्वयम् हरिः तीर्थीकुर्वन् भूमिभागम् श्रीमत्पादाब्जरेणुभिः क्षणम् यत्र स्थिदा शन्तस्तत्र तीर्थानि सन्ति हि तत्र कोऽपि मृदपापी यादिविष्णोः परम् पदम् दूरात्सम्प्रेक्ष्य कृष्णेष्ठा नाथयो व्याधयस्तथा भूतप्रेदपिशाचाश्च पलायन्ते दिशो नद्यो नदा पर्वताश्च समुद्राश्च तथा परे मार्गं ददुश्च साधुभ्यो नपेक्षेभ्यः समन्ततः साधूनां ज्ञानं निष्ठानां विरक्तानां महात्मनाम् अजातशत्रूणां तेषां दुर्लभं पुण्यवर्जितैः यस्मिन् कुले कृष्णभक्तो जायते ब्रह्मलक्षणं तत्कुलं विमलं विधि मलिम सम मलीमसमपि स्वतः राजन् श्रीकृष्णभक्तदस्तु पितृ दशकुलोद्भवान् प्रिया पक्षेऽपि दश च मातृपक्षे तथा दश पुरुषानुधरे द्राजन्निरयात् पापबन्धनाद साधुसम्बन्धिनश्चान्ये भृत्या दासा सुहृजनाः शत्र वो भारवाहश्च तद्गृहे पक्षिणस्तथा पिपीलिकाश्च मशकास्तथा कीडपदङ्कः अब्रह्मण्ये अब कृष्णसारे सवीरे किकडे तथा म्लेष्टदेशेऽपि देवेश भक्तो लोकान् पुनातिः साङ्ख्ययोगं विना राजं तीर्थ साधु संसर्गिनस्तेवि प्रयान्ति हरिमन्दिरे इद्धम् श्रीकृष्णभक्तानाम् माहात्म्यम् कथितं मया चतुपदार्थतम् नृणाम् किम्भूय श्रोतुमिच्छसि उग्रसेन उवाच परिपूर्णतमे साक्षात् श्रीकृष्णे परमात्मनि दन्तवस्त्रस्य दुष्टस्य ज्योतिर्लीनम् बभूवः अहो महदिदं चित्रं सायोज्यं महदामपि योग्यं स्याद्विप्रमुख्येन्द्र कथं चान्येन शत्रुणा श्रीव्यास उवाच म माहमिति माह वैषम्यम्भूतानां त्रिगुणात्मनां क्रोधाद्यैर्वर्धते राजन्नहरौ परमात्मनि हरौकेनापि भावेन मनोलग्नं करोदि यः यादि तद्रूपदां सोऽभिभृङ्गिणः कीटको यथा स्नेहम् कामम् भयं क्रोधमैक्यम् सौहृदमेव च कृत्वा तन्मयदां यान्ति साङ्ख्ययोगं विना जनाः स्नेहान् नन्दयशोदाद्य वसुदेवादयोपरि कालाद् गोप्यो हरिं प्राप्त न दु ब्रह्मतया नृप तद्रूपगुणमाधुर्यभावसंलग्नमानसाः भयात् कंसस्तव सुधस्तत्सायूज्यं जगामः क्रोधादयं दन्तवक्त्रशिशुपरादयोपरे ऐक्याच्च यादवायूयं सौहृदाच्च वयं तथा तस्मात् केनाप्युपायेन निवेशयेद कृष्णे निवेशयेद् अहर्निशं हि स्मरणम् भवेच्छत्रोर्न कर्हि चिद् शत्रुभावम् हरौ तस्मात् कुर्वन्ति धनुजादयः यदि श्रीगर्गसंहितायाम् विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे भक्तिमाहात्म्यं नाम चतुर्थोऽध्यायः ओम्